पाञ्चालान्येन सङ्ग्रामे भीमसेनो जयत्प्रभुः प्रत्यषेधद्बहूनेकः सपस्तांश्चैव निशम्ययस्य विस्फारं यद्रवन्तरणात्परे पर्वतस्येव जीर्णस्य विस्फोटमशनेरिव राजानं पर्यामृषितवानथ जापाशम् धनुषस्तस्या भीमसेनोऽवतारयत् अजयत्पश्चिमामा धनुषा येन पाण्डवः माद्रीपुत्रो महाबाहुस्ताम्रास्योमितभाषिता तस्य मौर्वीमपाकर्षच्छूरः सङ्क्रन्दनो कुले नास्ति रूपे यस्येति दक्षिणाम् दक्षिणाचारो दिशम्येन जयत्प्रभुः अपद्यमकरो वीरः सह देवस्तदायुधम् खड्गांश्च दीप्तान् दीर्घांश्चाकलापांश्च महाधनान् विपाठान् क्षुरधारांश्च धनुर्भिर्निदधुः सः वैशम्पायन उवाच अथान्वशासन्नकुलम् कुन्ती पुत्रो युधिष्ठिरः आरुह्येमांशमी वीरा धनुंश्येतानि निक्षिप तामुपारुह्य न कुलो धनुंषि निदधे यानि तस्यावकाशानि दिव्यरूपाण्यमन्यत यत्र चापश्य तस वर्षाणि वर्षति त्रता दृढ़ई पाशसुाढ़बंधत